मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं तर्टि फोर् वसिष्ठदशरथसंवादसमाप्तिवर्णनं श्रीगणेशाय नमः दशरथ उवाच श्रवणादिषु मासेषु लड्वादीन् यस्तु भक्षति तस्य विधियुतं विप्रमाहात्म्यं वद सर्वदम् वसिष्ठ उवाच मनोर्वैव स्वदस्यैव पुत्र इक्ष्वाकुसञ्ज्ञकः राजलोभि कनिष्ठः सन् व्रतं चकारसिद्धिदम् बभक्षश्रावणे कृष्णसङ्ग्याम् पञ्चखाद्यजान् लड्डुकान् सप्तभावेनव्रदसाधनतत्परः दधि भक्षणमात्रं स भाद्रे कृष्णे चकारः आश्विने निर्जलम् तद्वच्चकारव्रतमद्भुतं कार्तिके दुग्धभुक् राजातिष्ठत्स्वनियमे रदः मार्गशीर्षे जलं पीत्वा भजत्तं गणनायकं पौषे गोमूत्रमात्रं तु पीत्वा समाचरेद माके शुक्लतिलान् राजा बभक्षव्रतकारणाद फाल्गुने शर्करायुक्तं मानवो भक्षयद्धृतम् चैत्रे तद्वत् पञ्चगव्यं पूजयित्वा विनायकं वैशाखे पद्मबीजं स बभक्षव्रतधारकः ज्येष्ठे खृदं गवां भक्षां चकारव्रतमुत्तमम् आषाढे मधुमात्रं स बभक्षनियमे रथः चन्द्रोदये गणेशानां पूजयित्वा विधानदः तदस्तस्य व्रतस्यैव प्रभावेण महामदे सुद्युम्नो मनुपुत्रोय इलो ज्येष्ठो भवन्नृप तदो मुनिभिराद्यं तं स चकारः मनुरिक्ष्वाकुमेवं सार्वभौमं महाद्युतिम् एवं त्वसाध्यकं राजन यदि यदिमानवः धर्ममार्गेण तत्सोपि लभदे नात्रसंशयः संशयः एवं नानाजनाराजन्व्रतपुण्यप्रभावदः लब्ध्वा ते ब्रह्मभूताश्च बभूवोर्भूमिमण्डले अतः त्वम् राजशार्दूलपापरूपोऽसि साम्प्रतं तव राज्ये व्रतं नष्टं नृपाधमनबुध्यसे जनैः सहव्रदं व्रतं तस्मात् कुरुष्वत्वभविष्यसि पुत्रयुक्तश्च विघ्नेश मन्दे गच्छसि निश्चितम् मुद्गल उवाच प्रणम्यतम् दशरधो महाराजो जगामः स्वपुरे जनसंयुक्तश्चकारव्रतमुत्तमम् तदो भूपेन सर्वत्र प्रशस्तं तद्व्रतम् कृतम् चक्रुः सर्वजना भूमौ व्रतम् गणेश्वरम् महद व्रतपुण्यप्रभावेण विष्णुः साक्षात् बभूवः च दुर्धात्मानमाभज्य पुत्रस्तस्य महात्मनः रामश्च भरतो राजालक्ष्मणः शत्रुसूदनः पुत्राश्चत्वार एवं ते बभूवुर्बलसंयुताः अन्ते जगामविघ्नेशं दशरथप्रदापवान् लोकात् दुःखविहीनाश्च भ्रमभूता बभूविरे वसिष्ठर्षेर्दशरथस्येमं विप्रस्य धीमदः संवादम् व्रत हेतुं तु यशृणोति पठेन्नरः तस्मै विघ्नेश्वरः साक्षा ददादिफलमुत्तमम् पुत्रपौत्रादिसंयुक्तम् धनधान्यसमन्वितम् नानारोगविहीनत्वमैश्वर्यादियुदम् महद अन्दे गणपतौलीनं करोत्यत्र न संशयः चतुर्थ्याश्चरिदम् पूर्णम् कथितं ते प्रजापदे श्रोतुमिच्छा पुनः किं ते वर्तते वदसाम्प्रदम् ॐ तत्सदि श्रीमदान्ध्ये पुराणो पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते वसिष्ठदशरथसंवादसमाप्तिवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॐ